अथ षट्सप्ततितमः सर्गः श्रुत्वा तुजामदज्ञस्य वाक्यम् दाशरथिस्तदा गौरवाद्यन्तृतकथः पितुः राममथा ब्रवीत् कृतवानसि यत्कर्म श्रुतवानस्मि भार्गवा अनुरुध्यामहे ब्रह्मन् पितुरामृण्यमास्थितः वीर्यहीनमिवाशक्तम् क्षत्रधर्मेण भार्गवा अवजानासि नेतेजः पश्यमेऽद्यपराक्रमम् इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् शरम् प्रति जग्राहस्ताल्लघुपराक्रमः आरोप्य सधनो रामः शरम् सज्यम् चकारः जामदज्ञम् ततो रामम् रामः क्रुद्धोऽ ब्रवीदिदम् ब्राह्मणोऽसीति मे विश्वामित्रकृतेन च न ते राममोक्तुम् प्राणहरम् शरम् इमाम् वा त्वद्गतिम् राम तपो बलसमर्जितान् लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः बलदर्पविनाशनः वरायुधरम् रामम् द्रष्टुम् सर्षिगणाः सुराः पितामहम् पुरस्कृत्य यक्षराक्षसमागाश्च तद्द्रष्टुम् महदद्भुतम् जडीकृते तदालोके रामे वरधनुर्धरे निर्वीर्यो जामदज्ञोऽसौ रामो राममुदैक्षत तेजोऽभिर्गतवीर्यत्वाज्जामदज्ञो जडीकृतः रामम् कमलपत्राक्षम् मन्दम् मन्दमुवाचः काश्यपायमया दत्ता यदा पूर्वम् वसुन्धरा विषये मे न वस्तव्यमिति माम् काश्यपोऽब्रवीत् सोऽहम् गुरुवचः कुर्वन् पृथिव्याम् नवसे निशाम् तदा प्रभृति काकुत्स्थकृता मे काश्यपस्यः तामि माम् मद्गतिम् वीरहन्तुम् नार्हसि राघव मनोजवम् गमिष्यामि महेन्द्रम् पर्वतोत्तमम् लोकास्त्वप्रतिमा जहिताञ्छमुख्येन मा भूत्कालस्य पर्ययः अक्षय्यम् मधुहन्तारम् जानामि त्वाम् सुरेश्वरम् धनुषोऽस्य परामर्शात् स्वस्तितेस्तु परम् तप एते सुरगणाः सर्वे निरीक्षन्ते समागताः त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे न चेयम् तव त्वया त्रैलोक्यनाथेन यदहम् विमुखीकृतः शरमप्रतिमम् राममोक्तुमर्हसि सुव्रता शरमोक्षे गमिष्यामि महेन्द्रम् पर्वतोत्तमम् तथा ब्रुवति रामे तु जामदग्ने प्रतापवान् रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् सहताम् दृश्य रामेण स्वान् लोकाम्स्तव सार्जितान् जामदग्न्यो जगामाशु महेन्द्रम् पर्वतोत्तमम् ततो वितिमिराः सर्वादिशश्चोपदिशस्तथा सुराः सर्षिगणा रामम् प्रशशम् सुहृदायुधम् रामम् दाशरथिम् रामो जामदज्ञः प्रपूजितः ततः प्रदक्षिणीकृत्य जगामात्मगतिम् प्रभुः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः